श्रीहरये नमः अथ अष्टाविंशोऽध्यायः श्रीभगवानुवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे मनो विदिनां विधिना प्रसन्नं याति सत्पथं स्वधर्माचरणं शक्त्या विधर्मा च दैवालब्धेन सन्तोष आत्मविच्चरणार्चनं ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा मिधमे ध्याधनं शश्वद् विविक्तक्षेमसेवनम् अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ब्रह्मचर्यं तपः शौचं स्वाध्यायपुरुषार्चनं मौनं सधासन जय स्थैर्यं प्राणजयः सनैहे प्रत्याहारश्चेन्द्रियाणां विषयान्मनः हृदि स्वधिष्ण्यानामे गदेशे मनसा प्राणधारणम् वैकुण्ठलीलाभिज्ञानम् समाधानं तथात्मनः एतैरन्यैश्च पदिभिः मनो दुष्टम् असत्पथम् बुद्ध्यायुञ्जीतसनकै जितः प्राणो ह्यतन्त्रितः सुसौ प्रदिष्टभ्य प्रदिष्टाभ्य विजितासनासनम् तस्मिन् स्वस्ति समासेन रोजुकाय समभ्यसेत् प्राणस्य शोधयेन्मार्गम् पूरकुम्भकरे च गेहे प्रतिकूलेन वा चित्तं यथा स्थिरमसञ्चलं मनोचिराच्छाद्विरजं जितस्वासस्य योगिनः वाय्ग्निव्यां यथा लोकं ध्वा तं त्यजति वैमलं प्राणयामैर्दहेदूषान् धारणाभिश्च हारेण संसर्गान् ध्यानेनासीश्वरान् गुणान् यदा मनस्वं विरजं योगेन सुसमाहितं काष्ठां भगवतो ध्यायेत् स्वना साग्रावलोकनः प्रसन्नवधनाम्बोजं पद्मगर्भारुणेशणं नीलोत्पलदळश्यामं शङ्खचक्रगधाधरं लसत्पङ्कज किञ्जल्क पीतकौसेयवाससं श्रीवत्सवसक्षसं प्राजत् कौस्तुभामुक्तगन्तरं परीतं वनमालया पराज्ञहारवलय किरीडाङ्गतनूपुरं काञ्चीगुणोल्लसृणे हृदयां भोजविष्ठरं दर्शनीयतमं शान्तं मनोनयनवर्धनम् पिष्य दर्शनं शश्वत् सर्वलोकनमस्कृतं सन्तं वयसि कैशोरे भृत्यानुग्रहकाधरं कीर्तन्यतीर्थयससं पुण्यश्लोकयसस्करं ध्यायेद्देवं समग्राङ्गम् यावन्नश्यवते मनः स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् प्रेक्षणीये हितम् ध्यायेत् शुद्धभावेन चेतसा तस्मिन् लब्धपदं चित्तम् सर्वावयवसंस्थितम् विलक्ष्यैकत्र संयोज्यात् अङ्गे भगवतो मुनिः सञ्चिन्तयेत् भगवतः शरणारविन्दं वज्राङ्कुसध्वज सरोरुहलाञ्चनाढ्यम् उत्तुङ्गरक्तविलसत् नखचक्रवाल ज्योतिष्नाभिरागत महत्कृतयान्धकारं यश्चौनीश्रुतं हरित्प्रवरोधकेन तीर्थेन मूर्त्यन्यदि कृतेन शिवः शिवोऽभूद् ध्यातुर्मनः शमलन् शैलनिसृष्टवज्रं ध्याये चिरं भगवतश्चरणारविन्दं जानोत्वयम् जलजलोचनया जनन्या लक्ष्यं या किलस्य सुरवन्दितया विधातोः ऊर्वोर्निताय करपल्लवरोचिषाय संसालितं कृति विभोरभवस्य कुर्यात् ऊरु सुपर्णभुजयोरतिशोभमानो ओजो निधि अदसिकाकुसमावभासो व्यालम्बिपीतवरवाससि वर्तमान काञ्चिकालभरिरम्बिनिधम्बिम्बम् नाभीहृतम् भुवनकोशगुहोधरस्थं यत्रात्मयो निधिषणा किल लोकपद्मम् व्यूटं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद्वयं विशदहारमयूकगौरं वक्षोदिवासं वृषभस्त्यमहाविभोते पुंसां मनोनयननिर्वृतिम् आदधानम् कण्ठं च कुर्यान्मनसि अखिल लोकनमस्कृतस्य बहुंश्च मन्दगिरे परिवर्तनेन निर्णिक्तभागोबलयानति लोकपालान् सञ्चिन्तये दशसधारमसंज्ञ च तत्करसरोरुहराजहंसं कौमोदकीं भगवतो दयितां स्मरेत दित्ता मरादिब सोणिदकर्तमेन मालां मधुव्रतवरुतकिरो बगुष्टां चैतस्य तत्त्वममलं मणिमस्य भगवतो वदनारविन्दं यत्विस्फुरन्मकरकुण्टलवल्किदेन विद्योतितामलकपोलम्बुदारनासं यत्स्वीनिकेतमलिबीपरिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजोष्टं मीनत्वयाश्रयं मदिशिबत्तब्जनेत्रं ध्यायेन्मनोमयमध्ये धन्द्रत उल्लसद्भ्रू तस्यावलोकमधिकं कृपया अधिघोर तापत्रयोपसमनायन सृष्टं अक्षणोः स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्याये चिरं विपुलभावनया गुहायां हासंहरेऽवनधा किलोकतीव्र शोकाश्रुसागरविशोषणमद्युदारम् संमोहनाय रचितं निजमाय यास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ध्यानायनं प्रहसितं बहुलादरोष्ट भासारुणायित धनोद्विजकुन्तपङ्क्ते ध्यायेत्स्वदेहकुकरे वसितस्य विष्णोः भक्त्यार्तयार्पितमना न पृथक् ृषे एवं करो भगवति प्रतिलब्धभावो भक्त्या द्रवद्रुदयत्पुलः प्रमोदात् औत्कण्ठ्यभाष्पकलया मुहुराध्यमानः तच्चाभिचित् भटिसंसनकैवियुङ्क्ते मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणं रोचते मनःसहसायतार्चिष्ये आत्मानमत्र पुरुषो व्यवधानमेहम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः सोऽप्येदया चरमया मनसो निवृत्या तस्मिन् किं व्यवसितः सु गतोः कबाह्ये हेदुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन् विधत्तवुपलब्ध परमात्मकाष्ठः देहं च तं न शरमस्तिदमुक्तितम्ब सिद्धोऽपि पश्यन्ति यथोऽद्यगमत्स्वरूपं दैवादुपेतमत दैववसातभेतं परीकृत मधिराम देशों दीवसग खु कर्म याव स्वारम्भकं प्रति समीक्षत एव सासुः तं समाधियोगः स्वप्नं पुनर्न भजते प्रतिबुद्धवस्तुः यथा पुत्राश्च भित्त्याश्च पृथङ् मर्द्य प्रतीयते अभ्यात्मत्वेनाभिमताद्देहाते दे पुरुषस्तथा यथोल्मुखात् मात्वा मात्वापि स्वसम्भवात् अभ्यात्मत्वेनाभिमतात् यथाग्ने पृथक् गुल्मुखात् भूतेन्द्रियान्तकर्णात् प्रधना जीवसङ्गितात् आत्मा तथा पृथक् द्रष्टा भगवान् ब्रह्म सञ्जिदः सर्वभूतेषु सात्मानं सर्वभूतानि चात्मनि ईषदानेन्यभावेन भूतेष्विवधात्मना स्वयोनिशूयता ज्योतिं रेखं नाना प्रतीयते योनीनां गुणवैषं यत्ततात्मा प्रकृतौ स्थितः तस्मदीमां स्वां प्रकृतिं दैवीं सदसात्मिकां दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कापिले ये साधानुष्ठानं नाम अष्टाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं सद्गुरु सद्गुरुमहराजिके जय